नारदपुराणम् पूर्वार्थम् अध्यायम् सेवेण्टिफोर् सनत्कुमार उवाच अथोच्यन्ते हनुमतो मन्त्राः सर्वेष्ठदायकाः यान् समाराध्यविप्रेन्द्रतत्तुल्याचरणा नराः मनुस् स्वरेन्दुसंयुक्तं गगनं च भगान्विताः ख सफाग्निषाधीशाः द्वितीयं बीजमेजितं स्वसाग्नयो भगेन्द्वाढ्यास्तृदीयं बीजमीजितं वियभृग्वग्नि मन्विन्दुयुक्तं स्याञ्च चतुर्धकं पञ्चमं भगच्चन्द्राढ्या वियद्भृगुस्वकाग्नयः मन्विं दाढ्यौ हसौ षष्ठं ञेन्तस्याद्धनु मांस्ततः हृदयान्तो महामन्त्र राजोऽयं द्वादशाक्षरः रामचन्द्रो मुनिश्चास्य जगदीच्छन्देवदाहनुमान् बीजं षष्ठं शक्तेर्द्विदीयकं षड्बीजैश्च षडङ्गानि शिरोग्भाले दृश्योर्मुखे बलबाहुद्वये चैव हृदि कुक्षौ च नाभिदः ध्वजे जानुद्वये पादद्वये वर्णान् क्रमान्यसेद् षड्बीजानि पदद्वन्द्वं भाले मुखे हृदि नाभावूर्वोर्जङ्कयोश्च पादयोर्विन्यस्येत् प्रमाद अञ्जनीगर्भसम्भूतं ततो ध्यायेत्कपीश्वरम् उद्यत्कोट्यर्कसं काश्यं जगत्प्रक्षोभकारकम् श्रीरामाङ्ग्रिध्याननिष्टं सुग्रीवप्रमुखार्चितम् वित्रा नादेन राक्षसान् मारुतिम् भजेत ज्ञात्वैवम् प्रचपेद्भानुसहस्रम् विजितैन्द्रियः दशांशम् जुहुयात् बीहीन् पयोदध्याज्यमिश्रितान् पूर्वोक्ते वैष्णवे पीठे मूर्तिम् सङ्कल्प्य मूलतः आवाह्य तत्र सम्पूज्य पाद्यादिभिरुपायनैः केशरेष्वङ्गपूजा स्यात्पत्रेषु च तदोऽर्चयेद् रामभक्तो महास्ते जाकविराजो महाबलः द्रोणाद्रिहरको मेरुपीठ कार्चनकारकः दक्षिणाशा भास्करश्च सर्वविघ्नविनाशकः इद्धं सम्पूज्य नामानि दलाग्रेषु तदोर्चयेत् सुग्रीवमङ्गदनीलं जाम्बवन्तं नलं तथा सुषेणम् द्विविधं मैन्दं लोकपालस्तदोर्चयेद् वज्राद्यानपि सम्पूज्य सिद्धश्चैव मनुर्भवेद् मन्त्रं नवशदं रात्रौ जपेद् दशदिनावद्धि यो नरस्तस्य नश्यन्ति राजशत्रूग्धभीदयः माधुलिङ्गाम्रकदलीफलैर्हुत्वा सहस्रकं द्वाविंशति ब्रह्मचारि विप्रान् सम्भोजयेश्चुचीन् एवं कृते भूदविषग्रहरोगाद्युपद्रवाः नश्यन्ति तत्क्षणादेव विद्वेषिग्रहदानवाः अष्टोत्तरशतेनाम्बुमन्द्रिदं विशनाशनं भूदा पस्मार कृत्योद्धज्वरे तन्मन्द्रमन्त्रितैः भस्मभिसलिलैर्वापि ताडये ज्वरिणं कृ त्रिदिनाज्वरमुक्तोऽसौ सुखं च लभते नरः औषधं वा जलं वापि भुक्त्वा तन्मन्द्रमन्द्रितं सर्वानोगान् परा सर्वान् रोगान् पराभूय सुखी भवदि तत्क्षणाद तज्जप् भस्मलिप्ताङ्गो भुक्त्वा तन्मं त्रिदम्पयः योद्धुं गच्छेच्छ यो मन्त्री शस्त्रसङ्घैर्न बाध्यते शक्षदं व्रणःस्फोटो लूतस्फोटोऽभस्मना त्रिर्जक्तेन च संस्पृष्टा शिष्यन्त्येव न संशयः जपे जपेदर्कास्तमारभ्य यावदर्कोदयो भवेद मन्त्रं सप्तदिनं यावञ्चादाय भस्मकीलकौ निखनेदभिमन्त्र्याशुशत्रूणां द्वार्यलक्षितः विद्वेषम् मिथ आपन्नाः पलायन्देरयो चिराद भस्माम् भस्माम्बुचन्दनं मं त्रीमं त्रेणानेन मम त्रितं भक्ष्यादियोजितं यस्मै ददादि सदुदासवद क्रूराश्च जन्धवोऽप्येवं भवन्ति वशवर्तिनः गृहीत्वे शनधिस्कन्दं करं चदरुमूलकम् कृत्वा तेनाङ्गुष्टमात्रां प्रतिमां च हनूमदः कृत्वा प्राणप्रतिष्ठां च सिन्धूराध्यैः प्रपूज्य च गृहस्याभिमुखीद्वारे निखनेन्मन्द्रमुञ्जरन् गृहाभिचार रोगाग्निविष चौरनृपोद्भवाः न जायन्ते गृहे तस्मिन् कदा चेदाप्युपद्रवाः तद्गृहं धनपुत्राद्यैरेद्धे प्रत्यहं चिरं निशि यत्र वने भस्म मृत्स्नयवापि यत्नतः शात्रो प्रदिकृदं कृत्वा हृदि नाम समालिखेद कृत्वा प्राणप्रतिष्ठां दं भिन्द्याश्चैर्मनुं जपन् मन्द्राम् दे प्रोञ्चरेत्रोर्नामच्छिन्दि च भिन्दि च मारये दि च तस्यां दे दं दैरोष्ठं निपूड्य च पाण्यो स्थले प्रपीड्याधत्यक्त्वादं स्वगृहं व्रजेद कुर्वन् सप्तदिनं चैवं हन्याच्छत्रुं न संशयः राजिकालवणैर्मुक्तचिकुरः पितृकानने दूरफलपुष्पैश्च न करोम विषैरपि द्विककौशिकगृध्राणाम् पक्षैःलेष्मान्दकाक्षजैः सिमिद्धिस्त्रिशतं यामयदिङ्मुखो जुहुयान्निषि येवं सप्तदिनं कुर्वन्मारये दुद्धं रिपुन् वित्रासस्त्रिदिनं रात्रौ श्मशाने षट्शतं जपेद ततो वेदाल उद्धाय वदेद्भावि शुभाशुभम् किङ्करीभूय वर्तेद कुरुदेः साधकोदिदम् भास्माम्बुमन्त्रितम् रात्रौ सहस्रावृत्तिकम् पुनः दिनत्रयम् च तत्पश्चात् प्रक्षिपेत् प्रतिमासुजा यासु कासु ज स्थूलासु लघुष्वपि विशेषदः मन्द्रप्रभावाञ्चलनं भवत्येव न संशयः अष्टम्यां वा चतुर्दश्यां कुजे वा पट्टे माषैस्नेहपरिप्लुतैः कुल्याद्रम्यां विशुद्धात्मा सर्वलक्षणलक्षिताम् तैलदीपं वामभागे कृदीपं दुदक्षिणे संस्थाप्य वाहयेत्पश्चान्मूलमन्त्रेण मन्त्रविद प्राणप्रतिष्ठां कृत्वा च पाद्यादीनि समर्पयेद रक्तचन्दनपुष्पैश्च सिन्दूराद्यैः समर्चयेद धूपं दीपं प्रदायाध नैवेद्यं च समर्पयेद अपूपमोदनं शाक मोदकान्वटकादिकं साज्यं च तत्समर्प्याधमूलमन्त्रेण मन्त्रविद अखण्डितान्याहिलता दलानि सप्तविंशतिं त्रुधा कृत्वा स पूगानि मूलेनैव समर्पयेद् एवं सम्पूज्य मम त्रज्ञो कर्पूरारार्तिकं कृत्वा स्तुत्वा जबुधा सुधीः निजेप्सितं निवेद्याद विधिवद्विसृज्येत्तदः नैवेद्यान्नेन सम्भोज्य ब्राह्मणान् सप्तसङ्ख्यया निवेदितानि पर्णानि तेभ्यो दद्याद्विभज्य च दक्षिणायां च यथा शकृत्वा तान् विसृजेत् सुधी तद इष्टगणैः सार्धं स्वयं भुञ्जीदवाग्यदः तद्दिने भूमिशय्यां च ब्रह्मचर्यं समाचरेद एवंशकुरुदेव मर्त्यसोचिरा देवनिश्चितं प्राप्नुयात् सकलान् कामान् कपीशस्यप्रसादः हनुमत्प्रतिमां भूमौ विलिखेत् तत्पुरोमनुं साध्य नामद्वितीयान्तं विमोचय विमोचय तत्पूर्वं मार्जयेद्वामपाणिनाथ पुनर्लिखेद एवमष्टोत्तरशतं लिखित्वा मार्जयेत् पुनः एवं कृते महाकारा गृहाचीक्रं विमुच्यते एवमन्यानि कर्माणि कुर्यां पल्लवमुल्लिखन् सर्षपैर्वश्य क्रुद्धोमो विद्वेषेत्थयमरजैः कुङ्कुमैरिध्मकाष्ठैर्वा मरी चायर भी ज्वरे शूले मरीचर्जिकूडूचीना क्षीरेण्वास शूलेकैलोल तैलाक्ता निर्गुभि सिद्धिवा प्रयत्न सौभाग्ये चन्दनैश्चेन्द्रलोचनैर्वा लवङ्गकैः सुगन्धपुष्पैर्वस्त्राप्त्यैस्तान्यैस्तदाप्तये रिपुपादरजोभिश्च राजीलवणमिश्रितैः होमये सप्तरात्रं च रिपुर्यादियमालयम् धान्यैः सम्प्राप्यते धान्यमन्यैरन्नसमुच्छ्रयः स्त्रिराज्यक्षीरमधुभिर्मही क्षी गोः समृद्धये किम्बहक्तैर्विषेव्याघ्रौ शान्दौ मोहे च मारणे विवादे स्तम् धने द्युदे भूतभीतौ च संकटे बश्ये युद्धेक्षदे दिव्ये बन्धमोक्षे महावने साधितो साधितोऽयं नृणां दद्यान्मन्त्रश्रेयः सुनिश्चितं वक्ष्येध हनुमद्यन्तं सर्वसिद्धिप्रदायकं राङ्गूलाकारसंयुक्तं वलयत्रदयं लिखेध ध्य नाम लिखिन्मध्ये पाशिबीज प्रवेष्टितम् उपर्यष्टच्छदम् श्टार्चादा। कृत्वा पत्रेषु कवचम् लिखेद् तद्बहिर्दम् कमालिख्य तद्बहिश्चतुरस्रकम् चतुरस्रस्य रेखाग्रे त्रिशूलानि समालिकेद सौं बीजं भूगुरस्याष्टवज्रेषु विलिखेत्तदः कोणेष्व पुंसमालिक्य मालामन्त्रेण वेष्टयेद् तत्सर्वं वेष्टयेद्यन्द्र वलय्यतृदयेन च शिलायां फलके वस्त्रे ताम्रपत्रे दकुड्यके ताण्डपत्रे द भूर्जे वरो जनानाभिकुम्भकैः यन्द्रमेधत्समालिक्य निराहारो जितेन्द्रियः कपेः प्राणान् प्रतिष्ठाप्य पूजयेत्तद्यथाविधि सन्धारयेद्बुधः मारीज्वराभिचारादि सर्वोपद्रवनाशनं योषितामपि बालानां धृतं जनमनोहरं भूतकृत्यापिशाचानां दर्शनादेवनाशनं मालामन्त्रमधो वक्ष्ये तारो केहिनी वाग्विष्णुगहिनी दीर्घत्रयान्विदाय प्रागुक्तं कूडपञ्चकम् ध्रुवो हृ धनुमान् येन्दोधः प्रकटपराक्रमः आक्रान्तदिक्मण्डलान्दे यशोविधानसंवदेद धवलीकृतवर्णान्ते जगत्रिदयवज्रज देहज्वलदग्निसूर्यकोट्यन्ते च समप्रभतनूरुहपदान्तेदु रुद्रावतारः संवदे लङ्कापुरी तदः पश्चाद् दहनो दधिरं घन दशग्रीवशिरः पश्चात् वदेद सीदान्तेश्वसनपदम् वायुवं दे सुदमीरयेद् अञ्जनागर्भसम्भूत श्रीरामलक्ष्मणान्विदः नं दं दि कारणद्रोणशब्दान्धे पर्वतोत्पाटनेदि च अशोकवनवीभ्यन्ते दारुणाक्षकुमारक च धनान्धे वनरक्षाकरान्दे दुःसमूह ब्रह्मास्त्र विभञ्चनान्दे ब्रह्मास्त्रब्रह्मशक्तिग्रस्येति च लक्ष्मणान्दे शक्तिभेदनिवारणपदं वदेद् विशल्योषधि शब्दान्ते समानयन सम्पठेद् बालोदिददतो भानुमण्डलग्रसनेधि च मेखनादहोमपदाद्विध्वंसनपदं वदेद् इन्द्रजि दूधकारान्ते न सीदासक्षकेति च राक्षसी सङ्खशब्दान्ते विदारणपदं वदेद कुम्भकर्णादिसङ्कीर्त्य वधान्ते जपरायण श्रीरामभक्तिवर्णान्दे तत्परेदि समुद्रज व्योमद्रुमलं कनेधि महासामर्थ्यसंवदे महातेर्जः पुं जशब्दाद्विराजमानवोञ्चरेद स्वामिवचनसम्पादितार्जुनान्धे च संयुग सहायान्धे कुमारेधि ब्रह्मचारिन् पदं वदेद गम्भीरशब्दो दयान्ते दक्षिणापथ संवदे मार्ताण्डमेरुशब्दान्ते वदेत् पर्वदपीडिका अर्चनां देदु मपदं दे, वदेद आचार्य मम शब्दान्ते सर्वग्रहविनाशन सर्वज्वरोञ्चाडनान्ते सर्व विषविनाशन सर्वापत्तिनिवारण सर्वदुष्टनिबर्हणः सर्वव्याध्यादि सम्प्रोच्य भयान्दे च निवारण सर्वशत्रुच्छेदनेदि ततो मम परस्य च तदस्त्रिभुवनान्तेदु पुंस्त्री न सर्वजीवपदान् देदु जातं वश ययुग्मकम् ममाज्ञाकारकं पश्चात् सम्पादय युगं पुनः ततो नानामधेयान् सर्वान् राज्ञः सम्पठेद परिवारान् ममेत्यन्ते सेवकान् कुरु सर्वशस्त्रवीत्यन्तेशाणि विध्वंसयद्वयं लज्जादीर्घत्रयोपेदा होत्रयं चैहि युक्मकं विलोमं पञ्चगूढानि सर्वशत्रून्हनद्वयं परबलानि परान्ते सैन्यानि क्षोभयद्वयं मम सर्वं कार्यजातम् साधयेदि द्वयं सर्वदुष्ट सर्वदुष्टदुर्जनान्धे मुखानि कीलयद्वयं धेत्रयं वर्मस्तृदयं फट्त्रयं हान्त्रयं तदः वह्निप्रियान्दो मन्त्रोऽयं मालासंज्ञो खिलेष्ठदः वस्वष्टबाणवर्णोऽयम् मन्त्रः सर्वेष्टसाधकः महाभये महोत्पादे स्मृतोऽयम् दुःखनाशनः द्वादशार्णस्य षट्कूटम् त्यक्त्वा बीजम् तदादिमम् पञ्च कूडात्मको रामचन्द्रो मुनिश्चास्य गायत्री चन्दीरितम् हनुमान् देवता प्रोक्तो विनियोगोऽखिलाप्तये पञ्जबीजैः समस्तेन षडङ्गानि समाचरेत रामदूतो लक्ष्मणान्ते प्राणदाञ्जनीसुतः प्रासाद लङ्काप्रासादभञ्जनः हनुमदाद्याः पञ्चैते बीजाद्या मे युधाः पुनः षडङ्गमनवो ह्येदे ध्यानपूजादिपूर्ववद प्रणवो वाग्भवं पत्मा माया दीर्घत्रयान्विता पञ्चकूटानि मन्त्रोऽयं रुद्रार्णः सर्वसिद्धितः ध्यानपूजादिकं सर्वमस्यापि पूर्ववन्मदम् अयमाराधितो मन्त्रसर्वाभीष्टप्रदायकः नमो भगवदे पश्चादनन्तश्चन्द्रशेखरां जनेयाय महान् देदु बलायान्देऽग्निवल्लभा अष्टादशार्णो मन्द्रोऽयं सुनिरीश्वर संज्ञकः छन्दोऽनुष्टु देवदादु हनुमान पवनात्मजः सम्बीजं वह्निवनिता शक्ति प्रोक्ता मनीषिभिः आञ्जनेयाय हृदयं शिरश्च रुद्रमूर्तये शिखायां वायुपुत्रायाग्निगर्भाय वर्मणि रामदूताय नेत्रं स्यात् बह्यास्त्रायास्त्रमीरितम् तप्तचामी तप्तचामीकरनिभं भीघ्न संविहिताञ्चलिं चलत्कुण्डलदीप्तास्यं पद्मक्षमाहृदिं स्मरेद्यात्वैव मयुधं जप्त्वा दशांशं जिहुयात्तिलैः वैष्णवे पूजयेत्पीठे प्रागु दिष्टेन वर्त्मना अष्टोत्तरशतं नित्यं नक्रभोजीजितेन्द्रियः जपित्वा क्षुद्ररोगेभ्यो मुच्यते नात्र संशयः महारोगनिवृत्यैदु सहस्रं प्रत्यहं जपेद् राक्षसौखं विनिघ्नं तं कपिं ध्यात्वा धनाशनम् अयुधं प्रचपे नित्यमचिराजयदिद्विषं सुग्रीवेण समं रामं संदधानं दधानं कपिं स्मरन् प्रजपेदयुधं यस्तु संधिं कुर्याद्विपद्वयोः ध्यात्वा लङ्कां दहं तं तमयुदं प्रजपेन्मनुम् अचिरादेवशत्रूणां ग्रामान् सम्प्र दहेत्सुधीः ध्यात्वा प्रयाणसमये हनुमन्दं जपेन्मनुम् यो यादिसोचिरास्वेष्ठं साधयित्वा गृहे व्रजेद हनुमन्दं सदा गेहे योऽर्चये जप तत्परः आरोग्यं च श्रियं कान्तिं लभदे निरुपद्रवं कानने व्याघ्र चौरेभ्यो रक्षेन्मनुरयं स्मृतः प्रस्वापकालेशय्यायाम् स्मरेन्मन्त्रमनन्यधीः तस्य दुःस्वप्नचौरादिभयं नैव भवेत् क्वचिदर् वियत्सेन्दुर्हनुमते तदो रुद्रात्मकाय च ब्रह्मास्त्रान्दो महामन्द्रो द्वादशार्णोष्टसिद्धिकृत रामचन्द्रो मुनिश्चास्य जगदीच्छन्दीरिदं हनुमान् देवदाम्बीजमाद्यं शक्तिर्हुमीरिता षड् दीर्घभाजा बीजेन षडङ्गानि समाचरेत महाशैलं समुत्पाट्य धावन्तं रावणं प्रति क्षारुणं रौद्रं कालान्तकयमोपमं ज्वलदग्निसमं जैत्रं सूर्यकोडिसमप्रभम् अङ्गदाद्यैर्महावीरैर्वेष्ठितं रुद्ररूपिणं तिष्ट तिष्ठरणे दुष्ट सृजं तं घोर शैवरूपिणमभ्यर्च्य ध्यात्वा लक्ष जपेन्मनुं दशांशं जुहुयाद्वीहीन् पयोदध्याज्यमिश्रितान् पूर्वोक्ते वैष्णवे पीठे विमलादिसमन्विदे मूर्तिं सङ्कल्प्य पूजाकार्या हनुमदः ध्यानै नृणां सिद्धिरेव न संशयः अथास्य साधनं वक्ष्ये लोकानां हितकाम्यया हनुमत्साधनं पुण्यं महापादकनाशनं एतद्गुह्यतमं लोके शीघ्रसिद्धिकरं परम् मन्त्री यस्य प्रसादेन त्रैलोक्यविजयी भवेद् प्रादस्नात्वा नदीतीरे उपविश्य कुशासने प्राणायाम षडङ्गे च मूलेन सकलं चरेद पुष्पां जल्यष्टकं दत्त त्वा ध्यात्वा रामं सशीतकम् ताम्रपात्रे ततःपद्ममष्टपत्रं सखेशरम् कुचन्तनेन हृष्टेन संलिखेत्तच्छलाकया कर्मिकायां लिखेन्मन्त्रं तत्रावाह्यकबीश्वरम् मूर्तिर्मूलेन सङ्कल्प्य ध्यात्वा पाद्यादिकं चरेत् गन्धपुष्पादिकं सर्वं निवेद्य मूलमन्त्रतः केसरेषु षडङ्गानि दलेषु च तदोर्चयेत् सुग्रीवं लक्ष्मणं चैव श्यङ्गदं नलनीलकौ जाम्बवन्तं च कुमुदम् केसरीशं दलेऽर्चयेद् दिक्पालांश्चापि वज्रादीन् पूजयेत् तदनन्तरं एवंसिद्धे मनौ मं त्री साधयेत् स्वेष्ठमात्मनि नदीतीरे कानने वा पर्वते विजने ध साधये साधकश्रेष्ठो भूमिग्रहणपूर्वकम् जिदाहारो जिदश्वासो जिदवाक्च जितेन्द्रियः दिग्बन्धनादिकं कृत्वा न्यास ध्यानादिपूर्वकं लक्षं जपेन्मन्द्रराजं पूजयित्वादुपूर्ववद लक्षान्तिदिवसं प्राप्य कुर्याञ्जपूजनं महद एकाग्रमनसा सम्यक् ध्यात्वा पवननन्दनं द्वि द्वा रात्रौ जपं कुर्याद् यावत् सन्दर्शनं भवेद् सुदृढं साधकं मत्वा निशीधे पवनात्मजः सुप्रसन्नस्ततो भूत्वा प्रयाति साधकाग्रदः यद्धेप्सितं वरं दत्त्वा साधकाय कपीश्वरः साधकं दो वरं लब्ध्वा साधकं द्रो विहरेदात्मनः सुखैः यदद्धि साधनं पुण्यं लोकानां हितकाम्यया प्रकाशितम् रहस्यं वै देवानामपि दुर्लभम् अन्यानभिप्रयोगांश्च साधयेदात्मनो हितान् विय दिन्दुयुदम् पश्चान्नेन्दं पवननन्दनं वह्निप्रियान्दो मन्द्रोऽयं दशार्णः सर्वदामदः मुन्यादिकं च पूर्वोक्तं षडङ्गान्यपि पूर्ववद ध्यायेद्रणे हनूमन्दं सूर्यकोडिसमप्रभं समप्रभं वन्दं रावणं जेतुं दृष्ट्वा सत्वरमुद्धितं। लक्ष्मणं च महावीरं पतितं प्रणभूतले गुरुं चक्रोधमुत्पाद्य ग्रहोदुं गुरुपर्वतम् हाहाकारैः सदर्पैश्च कम्पयन्तं जगत्रयम् आब्रह्माण्डं समाख्याप्य कृत्वा भीमं कलेवरम् लक्षं जपे दशांशेन जुहूयात्पूर्ववत्सुधीः पूर्ववत्पूजनं प्रोक्तं मन्द्र एवंसिद्धे मनौ मन्त्री साधयेदात्मनोहितम् अस्यापि मन्त्रवर्यस्य श्या रहस्यम् साधनम् तु वै सुगोप्यम् सर्वतन्द्रेषु न देयम् यस्य कस्यचिद् ब्राह्मे मुहूर्ते चोद्धाय कृतनित्यक्रियशुचिः गत्वा तस्नात्वा तत्स्नात्वा तीर्थमावाह्यचाष्ठथा मूलमन्त्रं तदो जप्त्वा सिं चेदादित्यसङ्ख्यया एवं स्नानादिकं कृत्वा गङ्गातीरेथवा पुनः पर्वदेवा वा भूमिग्रहणपूर्वकम् आद्यवर्णैः पूरकम् स्यात्पञ्चवर्गैश्च कुम्भकम् रेचकम् च पुनर्ह्याद्यैर्येवम् प्राणाह्नियन्य च विधाय भूतशुद्ध्यादिपीढन्यासावधि पुनः ध्यात्वा पूर्वोक्तविधिना सम्पूज्य च कपीश्वरम् तदग्रे प्रचपेन्नित्यं साधको युदमादराद सप्तमे दिवसे प्राप्ते कुर्याञ्च पूजनमहद एकाग्रमनसामन्द्री दिवारात्रम् जपेन्मनुं महाभयं प्रदत्त्वा गेषा सुनिश्चितं यामिनीषु समायादि नियतं पवनात्मजः यद्धेप्सिदम्बरं दद्यात् साधकाय कपीश्वरः विद्यां वापि धनं वापि राज्यं वा श्रुतनिग्रहं तत्क्षणादेव सत्यं सत्यं न संशयः इह लोकेऽखिलान् कामान् भुक्त्वा दे मुक्तिमाप्नुयाद सद्याचिदं वायुयुग्मं हनूमन्देदि चोद्धरेद फलान्दे भक्रिया नेत्रयुक्ता च कामिका तदः धग् धगिते दगितेत्युक्त्वा आयुरास्वपदं तदः दोहिदोगरुडोहेदि नेत्राक्षरो मनुः मुन्यादिकं तु पूर्वोक्तं प्लीहरो गहरो हरिः देवता च समुद्दिष्टा प्लीह युक्तो दरे पुनः नागह्वल्लीदलं स्थाप्य मुपर्याच्छादयेत्तदः वस्त्रं चैवाष्ठगुणिदं ततः साधकसप्तमः शकलं वंशजं तस्योपरि मुञ्चेत्कपिं स्मरेत् आरण्यसाणकोत्पन्ने वह्नौ यष्टिं प्रतापयेत् बदरी भूरुहोद्धान्तां मन्द्रेणानेन सप्तधा तया सन्ताडयेद्वंशकलं जठरस्थितं सप्त कृत्व प्लीहरो गो नाशमायादिनिश्चितं तारो नमो भगवदे आञ्जनेयाय चोञ्चरेद अमुकस्य शृङ्खलां त्रोढयद्विदय मीरयेद बन्धमोक्षम् कुरुयुगं स्वाहान्तो यं मनुर्मदः ईश्वरोस्य मुनिश्चन्दोनुष्टुप् च देवताः देवता पुनः शृङ्खला मोचर श्रीमान् हनुमान् पवनात्मजः हं बीजं तद्वयं शक्रिर्बन्ध मोक्षो नियोगता युक्देन षड्दीर्घवह्रियुक्तेन बीजेनाङ्गानि कल्पयेद् वामेशैलं वैरिभिदं विशुद्धं तं कमन्यतः दधानं स्वर्णवर्णं च ध्यायेत् कुण्डलिनं हरिम् एवं ध्यात्वा जपेर्लक्षदशांशं चूदफल्लवैः जुभूयात् पूर्ववत् प्रोक्तम् यजनं वास्य सूरिभिः महाकारागृहे प्राप्तो ह्ययुदम् प्रजपेन्नरः शीघ्रम् कारागृहान्मुक्तसुखी भवति निश्चितम् यन्त्रं चास्य प्रवक्ष्यामि बन्धमोक्ष करम् शुभं अष्टच दान्तः षट्कोणम् साध्यनाम साध्यनामसमन्विधं षट्कोणेषु ध्रुवं ङेन्द माञ्चनेयपदं लिखेद् अष्टच्छदेषु विलिखेत् प्रणवो वादुवात्विदि गोरोचना कुङ्कुमे न लिखित्वा यन्त्रमुत्तमं धृत्वा मोध्निजपेन्मन्त्रमयुधं यन्त्रमेतल्लिखित्वादु मृत्तिकोपरिमार्जयेद दक्षहस्तेन मन्त्रज्ञः प्रत्यसम् मण्डलावधि एवम् कृते महाकारा गृहान्मन्त्री विमुच्यते गगनं ज्वलनः मर्कडे दिद्वयम् तदः सोऽयं शेषमकरे तदशृङ्खलिकां चेदि वेदनेत्राक्षरो मनुः इमं मन्त्रं दक्षकरे लिखित्वा वामहस्तदः दूरीकृत्य जपेन्मन्त्रमष्टोत्तरशतम्बुधः त्रिसप्त त्रिसप्ताहात् प्रबुद्धोऽसौ मुच्यते नात्र संशयः मुन्याभ्यर्चादिकं सर्वमस्य पूर्ववदाचरेद् लक्षं जपोदशांशेन शुभैर्द्रव्यैश्च होमयेद् पुच्छाकारे सुवस्त्रे जलेखन्या क्षुरकोद्धया गन्धाकैर्लिकेदूपम् कविराजस्य सुन्दरम् तन्मध्येष्ट तन्मध्येष्टदशार्णं दुःशत्रुनामान्वितं लिखेद तेन मन्त्राभिजप्तेन शिरो बध्वेन भूमिभः जयत्यरिगणं सर्वं दर्शनादेव निश्चितं चन्द्रसूर्योपरागादौ पूर्वोक्तं लेखये ध्वजे ध्वजमादाय मन्त्रज्ञः संस्पर्शान्मोक्षणावधि मादृगां जापयेत्पश्चाद् दशांशेन च कोमयेद् त्रिलैः सर्षपसम्मिश्रैः संस्कृतेकव्यवाहने गजे ध्वजं समारोप्य गच्छेद्युध्वाय भूपतिः गजस्थं तं ध्वजं दृष्ट्वा पलायन्तेरयो ध्रुवं महारक्षाकरं यन्द्रं वक्ष्ये सम्यक् धनुमदः लिखेद्वसुदलं पद्मं साध्याख्यायुधकर्णिकं दलेष्टकोणमालिख्य माला मन्द्रेण वेष्टयेद् तद्बहेर्मायया वेष्ट्यप्राणस्थापनमाचरेद लिखितं स्वर्णलेखन्या भूर्जपत्रे सुशोभने काश्मीररोचनाभ्यां तु त्रिलोकेन च वेष्टितं सम्पादसाधितं यन्त्रं भुजे वा मूर्ध्नि धारयेद् रणे दूरोदरे वादे व्यवहारे जयं लभेद् ग्रहैर्विघ्नैर्विषैश्चस्त्रैश्चौरैर्नैवाभिभूयते सर्वान्द्रोगान आकृत्य चिरं जीवेच्छदं समाहा षड्दीर्घयुधं गगनवक्न्याख्यं तारसम्पुटम् अष्टार्णोऽयं महामन्त्रो मालामन्द्रोदकथ्यते प्रणवो वज्रकायेदि वज्रतुण्डेदि सम्पटेद कपिलान्दे पिङ्गदे ऊर्ध्वकेशमहापदं बलरक्तमुखान्धेदु तडिजिह्वमहातदः रौद्रदंष्ट्रोत्कटं पश्चात् कः द्वन्द्वं करालिति महदृढप्रहारेण लङ्केश्वरवधात्तदः वायोर्मः सेतुपदम् बंशान्ते च महापुनः शैलप्रवाहगने चरयेह्येहि संवदे भगवन्महाबलान्ते पराक्रमपदं वदेद भैरवाज्ञापयैह्येहि महारौद्रपदं ततः दीर्घबुच्छेन वर्णान्ते वदेद्वेष्टयवैरिणं जम्भयद्वयमाभाष्य वर्मास्त्रान्तो मनुर्मदः माला क्वयोद्विजश्रेष्ठशरनेत्रधराक्षरः मालामन्त्राष्टार्णयोश्च मुन्याद्यर्चादुपूर्ववद जप्तो युद्धे जयं दद्याद्व्याधौ व्याधिविनाशनः येवं भजदे मन्त्री वायुपुत्रम् कवीश्वरम् सर्वान् सलभदे कामान्दे वैरपि सुदुर्लभान् धनम् धान्यं सुधान् पौत्रान् सौभाग्यमधुलं यशः मेधां विद्यां प्रभां राज्यं विवादे विजयं तथा वैश्याद्यानि च कर्माणि विजयं तथा उपासी जना गर्भ प्रददात्यलं गर्भसंभूत प्रदाख्यल बृहनादीयुराणे पूर्वभागे सनकुमार विभागे पादे हनुमन बृहदुपख्या हनुम चुस्सप्तमोध्याय ओम